de re nandini nanditam e dinive निर्मद शोषि नि सिन्धुसुते जय जय हे महिषासुरमर्दिनि रं न कपर्दिनि शरसुते हरि जगदम्ब मदं मकदम्बवन प्रियवासिनि सार ण्डित रुण्डवि तुण्डित सुन्द गजाधिपते भुगज गण्डवि धारण चण्ड पराक्रम सुन्द मृगाधिपते निज जय जय हे महिषासुरमर्दिनि रमक पर्दिनि नागत भैरिवधूवर मेरव राभय दाय करे त्रिभुवन मस्तक शूल विरोधि सिरोधिकतामलशूल करे शिव शिव शुम्भनि शुम्भ महाभव तर्पितभूत पिशाचरते जय, जय हे महिषासुरमर्दिनि रम्य कपर्दिनि शले रनुरनु शङ्करक्षण सङ्गपरस्पुत दङ्घन तत्कटके पि सङ्गपि सत्कनि सङ्गरसद्भट सिङ्गः ताबुके हित चतुरङ्गबल जले, जले जल शब्द जल परस्तुति तत्पर विस्वनुते रणिञ्झिम झिङ्कीर्तनोपुर सिङ्गित भूषित भूतपटे नटित ता नटार्दी ना ता नट नायक नाटित नाट्य सुगानरते जय जय हे महि ससुरमर्दिनि रम्य कर्दिनि शेर सुते हि सुमन सुमन सुमन सुमनो भर कान्तयुते हितरजनि रजनि रजनि रजनी रजनी करभक्विरे सुनयन वि भ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते जय जय हे मैसासुर सासुरमर्दिनि रम्यक कपर दिनि ीतमहाहवल्लभ तल्लिकवल्लित ललितवल्लिर ते विरचितवल्लिकपल्लिकमल्लिक झिल्लिक बल्लिकवल्गविदे कृतकृत पुल्लसमुल्लसितारुतल्लज पल्लव सल्लिते जय जय हे महिषासुरमर्दिनि रम्य कपर्दिनि शरजिते विरल कण्डगलन् मदमे तु मतमतङ्गज राजपते त्रिभुवन कमल दलावल कोमल कान्ति कला कलि तमल पाल ते ढकलविनाशकल क्रमकेलि चल हंस कुले अलि कुल कुवलय मण्डल मौल मिल जित कूजित कोकिलज्जित कुञ्जुमते पुरिन्द मनोहर कुञ्जित रञ्जित शैलनिकुञ्जगते जगणभूत महासबरी गण रङ्गण समृत केलिरते जय जय हय महि ससुरमर्दिनि रम्य कपर्दिनि शैले अदि तत् पीत चन्द्र चे प्रणत सुरासुर मौलि मणि पुर धनसुरसनख चन्द्र तारक सुभृत ते सुरत समाधि समान समाधि समाधि सुजातरते जय जय हे महिषा तु मर्दिनिरम्यक पर्दि यद् कमलं तरुणानिलये वरिवसति निलं तृषिवे हरिकमले कमलानिलये कमलानि लय सकृतं न भवे तव पदमेव परं पदमेत्यनुशेलय तु मम किम् सिञति तेङ्गरणं गभुवं भजति स किं न सचे कुचकुम्भतटे परिरम्भसुखानुभवं तव चरणं चरणं करवाणि पिडानि सदा मयि देहि जय जय हे मयि सासुरमर्दिनिरं न कपर्दिनिशय विमलेन्दुकुलं वदनेन्दुमलं सकलं धनुकूलयते हिमपुरगूतपुरेन्दुमुखे सुमुखे विरसोभिमुखे क्रियते ममतुमतं शिवनामदने अयि जगतो जननी कृपयासि यथासि तथानुमिताशिर ते अदुचितमद्भवत् दुरीकुरुता दुरुतापमपा कुरुते जय जय हे महि सासुरमर्दिनिरम्य कपर्दिनिशरसुते जय जय हे महिषासुरमर्दिनिरम् amal